ब्रह्माण्डपुराणं मध्यभागम् अध्यायं सेवेण्टित्रि विष्णुमाहात्म्यं सूत उवाच एवमाराध्यदेवे शमीशानं नीललोहितं प्रह्वेदि प्रणतस्तस्मै प्राञ्चलेर्वाक्यमब्रवीद काव्यस्य गात्रं संस्पृश्य प्रीतिमान् भवः निकामं दर्शनं दत्त्वा तत्रैवान्तरधारः तदसोतर्हिदे तास्मिन् देवे सानुचरे तदा निष्टीम् प्राजलिर्भूत्वा जयन्तीमिदमब्रवीत् कस्य त्वं सुभगे कावा। वा दुःखिते मयि दुःखिता सहता तपसा योक्तं किमर्थं मां जिगीष्यसि अनया सददम्भक्रिया प्रश्रयेण दमेन च स्नेहेन चैव शुश्रोणि प्रीतोऽस्मि वरवर्णिनि किमिच्छ शिवरारोहे कस्ते कामः समृद्ध्यतां तं ते सम्पूरयाम्यद्य यद्यपि स्यात् सुदुर्लभः एवमुक्ता ब्रवीदेनं तपः सा ज्ञातुमर्हसि चिकीर्षितं मे ब्रह्मिष्ठत्वं हि भेद्य यथा तथम् एवमुक्तो ब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा माहेन्द्रित्वं वरारोहे मद्धितार्थमिहा मया सखत्वं शुश्रोणि दशवर्षाणि भामिनि अदृश्यं सर्वभूतैस्तु सम्प्रयोगमिहेच्छसि देवीन्द्रनीलवर्णाभेवरारोहे सुलोचने इमं वृणीष्व कामं त्वं मत्तो वै वल्गुभाषिणि एवं गृहान्मत्ते तदस्व तदस्वगृहमागम्य जयत्या सहितः प्रभुः सतया चाव चावसद्देव्या दशवर्षाणि भार्गवः अदृश्य सर्वभूतानां मायया संवृतस्तदा कृतार्थमामदं ज्ञात्वा काव्यं सर्वे तिथे सुताः अभिजग्सुर्गृहं तस्य मुदितास्तं दिदृक्षवः गदा यदा न पश्यन्ति जयत्या संवृद्धं गुरुं लक्षं मं तस्य तद्बुद्ध्वा प्रति जग्मुर्यथागतम् बृहस्पतिस्तु संवृद्धं ज्ञात्वा काव्यं वरेणः प्रीत्यर्थे दशवर्षाणि जयन्त्या हितकाम्यया बुद्ध्वा तदन्तरं सोध देवानां मन्त्रचोदितः काव्यस्य रूपमास्थाय सोऽसुरान् समभाषदा तद सोऽभ्या गतान् दृष्ट्वा बृहस्पतिरुवाच तान् स्वागतं मम याज्ञानां सम्प्राप्तोऽस्मि हिताय च अहं वोध्यापयिष्यामि प्राप्ता विद्या मया तदस्ते हृष्टमनसो विद्यार्थमुपपेदिरे पूर्णे काव्यस्तदा तस्मिन् समये दशवार्षिके समयान्ते दे देवयाजी सद्यो जातमधिस्तदा बुद्धिं चक्रे तदश्चापि याज्ञानां प्रत्यवेक्षणे शुक्र उवाच देवी देवि गच्छाम्यहं द्रष्टुं तव याज्ञाचुचिस्मिते विभ्रान्तप्रेक्षिते साध्वित्रिवर्णायतलोचने एवमुक्ताब्रवी देवी भज भक्ता एष ब्रह्मन् सदा धर्मो न धर्मं लोपयामि सूत उवाच तदोगत्वा गत्वा सुरान् दृष्ट्वा देवाचार्येण धीमदा वञ्चितान् काव्यरूपेण वचसा पुनरब्रवीत काव्यम् मामनुजानीध्वमे शह्यां गिरसो मुनिः वञ्चिता बदयूयं वै मयि दानवाहा। तु दानवाः श्रुत्वा तथा भ्रुवाणं तं सम्भ्रान्ता दिदिजस्ततः सम्प्रैक्षन्ता बुभौ तत्र स्थिरासीनौ शुचिस्मितौ सम्प्रमुस्तिदा सर्वे प्रापद्यन्दन किञ्चन तदस्ते सुप्रमूठेषु काव्यस्तान् पुनरब्रवीत् आचार्यो यो ह्ययं काव्यो देवायमङ्गिराः अनुगच्छद मां सर्वे त्यज दैनं बृहस्पतिं एवमुक्ते तु ते सर्वे तावुभौ समवेक्ष्य च तदा सुराविशेष नामं बृहस्पतिरुवाचैनामं भ्रातोऽयमङ्गिराः काव्योऽहम्भो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः सम्मोहयदिरूपेण मामकेनैषवोत्सुराः श्रुत्वा तस्य वचस्ते वै सम्मन्त्र्याथ वचो ब्रुवन् अयं नो दशवर्षाणि सततं शास्ति वै प्रभुः एष वै गुरुरस्माकमन्तरेऽप्सुरयं द्विजाः तदस्ते धनवा सर्वे प्रणिपत्याभिवाद्य च वचनं जगृहुस्तस्य विद्याभ्यासे नमोहिताः। कुचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः अयं गुरुर्हितोऽस्माकं गच्छ त्वं नाशिनो गुरुः भार्गवोगिरसोवायं भवत्वे शैव नो गुरुः स्थिता वयं गच्छत्वं साधुमाचिरम् एवमुक्त्वा सुराः सर्वे प्रापद्यन्तबृहस्पतिं यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धिदं चुकोपभार्गवस्तेषामवलेपेन वै तदा बोधिताभिमया यस्मान्नमाम्भजद दानवाः तस्मात् प्रणष्ट संज्ञा वै पराभवमवाप्स्यथि दिव्याहृत्यतान् काव्यो जगामाथ यथागतं सप्तां स्थानसुराञ्ज्ञात्वा काव्येन बृहस्पतिः कृतार्थ स तदा हृष्टस्वरूपं प्रत्यपद्यत बुद्ध्वा सुरांस्तदा भ्रष्टान् कृतार्थो तर्धिमागतं ततः प्रनष्टे तस्मिं स्ते बिभ्रान्ता धनवास्तदा अहो दिवञ्जिदा स्नेहात् परस्परमधा ब्रुवन् धर्मदो विमुखाश्चैव कारिदा वेधसावयं दग्धाश्चैवोपधा योगात् स्वे स्वे कार्ये दुमायया देवेभ्यस्त्वरिताययुः प्रह्लादमग्रधकृत्वा काव्यस्यानुगमं पुनः तद काव्यं समासाद्यस्य पितस्तु रवाङ्मुखाः तानागतान् पुनर्दृष्ट्वा काव्यो याज्यानुवाचः मया सम्बोधिता यदो मान्नाभ्यनन्दध तदस्तेनावलेबेन गदायूयं पराभवं प्रह्लादस्तमधोवाच मानस्त्वं त्यजभार्गव स्वान्याज्यान् भजमानांश्च स्चा भक्तांश्चैव विशेषतः त्वय्य दृष्टे वयं तेन देवाचार्येण मोहिताः भक्ता नर्हसि नस्त्रादुं ज्ञात्वा दीर्घेण चक्षुषा यदि न कुरुषे प्रसादं भृदुनन्दनापध्या तास्त्वयाह्यद्य प्रवेक्ष्यामो रसातलम् सूद उवाच ज्ञात्वा काव्यो यथा तत्त्वं कारुण्येन महीयसा एवं शुक्रोऽनुनीतः संस्तदः कोपं न्यवर्तयद उवाचेदं न भेदव्यं गन्तव्यं अवश्यं भावीह्यर्थोऽयं प्राप्तो वो न शक्यमन्यथा दिष्टं कि बलवत्तरं संज्ञा प्रनष्टा याचेयं कामं तां प्रदिलप्स्यथ प्राप्तपर्यायकालो वा इति ब्रह्माभ्यभाषद प्रसादा च युष्माभिर्भुक्तं त्रैलोक्यमूर्झितं युगाख्या दशसम्पूर्णा देवानाक्रम्य मूर्धनी तावन्तं मेव कालं वै ब्रह्मा सावर्णिके पुनस्तुभ्यं राज्यं किल भविष्यति लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः एवं कालमयं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयं तथा हृदेषु लोकेषु न न किला भवत् यस्मात् प्रवृत्तयश्चास्य न कामैरभिसंधिताः तस्मात् दजेन प्रीतेन दत्तं सावर्णिकेन्दरे देवराज्यं बलेर्भाव्यमिति मामीश्वरो ब्रवीद तस्मादृश्योभूतानां कालाकाङ्क्षी स तिष्ठति प्रिरेण चामरत्वं वै दत्तं तुभ्यं स्वयंभुवा तस्मान्निरुत्सुकस्त्वं वै पर्यायं सहसा कुलः न च शक्यं मया तुभ्यं पुरस्ताद्वै विसर्पितुं ब्रह्मणा प्रदिषिद्धोऽस्मि भविष्यं जानता प्रभो मौ चिष्यौ दौ मह्यौं तु्यात बृहस्पते दावत सह संर सर्वान्वो सूद उवाच दैतेया काव्ये नाक्लिष्ट मुक्ताये कालिष्टकर्मण सतस्ताभ्यायुस्थ प्रह्लादप्रमुखास्तदा अवश्यभाव्यमर्थं तं श्रुत्वा दैतेय दानवाः सहसा शंसमानास्ते जयं काव्येन भाषितं दंशिदा सायुधाः सर्वे ततो देवान् समाह्वयन् अथ देवासुरान् दृष्ट्वा सङ्ग्रामे समुपस्थितान् तदसमृदसन्नाह देवास्तान् समयोधयन् देवासुरे ततस्तस्मिन् वर्तमाने शतं अजयन्दासुरादेवान्न देवा अमन्त्रयन् देवा ऊचुः चण्डामर्कप्रभावेण जितास्मस्त्व स्मस्त्वसुरैर्वयं तस्माद्यत्नं समुद्दिश्य कार्यं चात्महितं चयत् यज्ञेनोपाह्वयिष्यामस्तदो ज्येष्यामहे सुरान् अधोपां मन्द्रयन्देवा शण्डामकारैदुता उभौ यज्ञे चाहूय तौ प्रोक्तौ त्यजन्तामसुराद्विजौ ग्रहं तु वां ग्रहीष्यामो ह्यनुजित्यदुदानवान् एवं तत्यजतुस्तौदु षण्डामर्कैस्तदासुरान् तदो देवा जयं प्राप्ता दानवाश्च पराभवं देवासुरान् पराभाव्य षण्डामर्कावुपागमन् काव्यशापभिभूताश्च अनाधाराश्च ते पुनः बाध्यमानास्तदा देवैर्विविशुस्ते रसातलं एवं निरुद्ध्यमास्ते वै कृदाशक्रेण दानवाः तदः प्रभृति शापेन भृगुनैमित्तिके च यज्ञे पुनः पुनर्विष्णोर्यज्ञेथ शिथिले प्रभुः कर्तुं धर्मव्यवस्थानमधर्मस्य प्रणाशनम् प्रह्नादस्य निदेशेदु ये सुरान्न व्यवस्थिताः मनुष्यवध्यां तान् सर्वान् ब्रह्माव्या हरदप्रभुः धर्मानारायणस्तस्मात् सम्भोदश्चाक्षुषेन्दरे यज्ञं प्रवर्तयामास वैन्यो वैवस्वदेन्दरे प्रादुर्भावे दुर्वैन्यस्य ब्रह्मैवासीत् पुरोहितः युगाख्याया चतुर्थ्यां सुरेश्वधा संभूदस्स सुरेश्व सम्भोदस्समुद्रान्तर्हिरण्यकशिपोर्वधे द्वितीयो नरसिंहो भूद्रौद्रसुधुरःसरः यजमानं तु दैत्येन्द्रमदित्याकुलनन्दनः द्विजो भूत्वा शुभे काले बलिवैरोचनम जगौ त्रैलोक्यस्य भवन राजा सर्वं शिष्ठि धादुमर्कसी मे राजभु ददामीत्येव तं राजा बलिर्वैरोचनोऽब्रवीद वामनं तं च विज्ञाय तदोदान्मुदिदस्वयं स वामनो दिवं कं च पृथिवीं च द्विजोत्तमाः त्रिभिक्रमैर्विश्वमिदं जगदाक्रामदप्रभुः अत्यरिच्यदभुदात्मा भास्करं स्वेन तेजसा प्रकाशयन् दिश सर्वाः प्रदिशश्च महायशाः शुशुभे स महाबाहु सर्वलोकान् प्रकाशयन् आसुरीं श्रियमाहृत्य त्रीं लोकांश्च जनार्दनः सपुत्र पौत्रान् सुरान् पादाल न मुचि शम्बरश्चैव प्रह्रादश्चैव विष्णुना क्रूराहदा विनिर्दूता दिश्य सम्प्रतिपेदिरे महाभूतानि बोधात्मा सविशेषाणि माधवः बलिं चं सबलं विप्रास्तत्राद्भुतमदर्शयद् तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति न किञ्चिदस्ति लोकेषु यदव्याप्तं महात्मना तद्वैरूपमुपेन्द्रस्य देवा मानवाः। दृष्ट्वा सम्मुहुः सर्वे विष्णुतेजो विमोहिताः बलिसिधो महापाशै सबन्धुस्सुद्धृगणः विरोचनकुलं सर्वं पादाले सन्निवेशितं तदसर्वामरैश्वर्यं दत्वेन्द्राय महात्मने मानुषेषु महाबाहु प्रादुरास जनार्दनः एतास्तिस्रमृतास्तस्य दिव्या दिव्याः सम्बोधयशुभाः मानुष्यसप्तयस्तस्य सा ग्रगास्ता निबोधत त्रेधायुगे तु दशमे दत्ताे बूव नष्टे धर्मे धर्म चतुर्धंडयुरस्स पंचम पंचदश संबूव मादाचक्रवर्तिपुरसर एकोनविंश्यां त्रेधायां सर्वक्षत्रान्तकृद्विभुः जामदग्न्यस्तदा षष्ठे विश्वामित्रपुरःसरः चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् वेदव्यासस्ततो यज्ञे जादूकर्ण्य पुरःसरः तथैव नवमे विष्णुरदित्या कश्यपात्मजः देवख्याम् जादो गार्ग्य पुरस्सरह अप्रमेयो नियोगश्च यदकामवरो वशी क्रीडदे भगवाल्लोके बालक्रीडनगेरिव न प्रमादुं महाबाहुं शक्योऽस्सौ मधुसूदनः परम ह्यवर में तस्वूपति के तर सश नष्टे धर्म तथा ज्ञे विष्णुवृष्णिकुले प्रभु कर्त धर्म व्यवस्था मधुराण प्रणाशनं माहयन् सर्वभूतानि योगात्मा योगमायया प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरदे महीं विहारार्थं यत्र कंसं च शाल्वं च द्विवितं च महासुरम् अरिष्टं वृषभं चैव कुदानां केशिनं भयं नागं कुवलया मल्लं राजगृहाधिपं दैत्यान् मानुषदेहस्थान् सुदयामासवीर्यवान् चिह्नं बाहु सहस्रं च बाणस्याद्भुतकर्मणा नरक हत्य यवन महाबल हृदान च महीना निहदा, कुरा रसा तले, ये रसतले ये प्रादुर्भावा, प्रादुर्भा महात्म अस्ुगे क्षणे सन्ध्याशिष्टे भविष्यति कल्किर्विष्णु यशा नाम पाराचर्यप्रतापवान् दशमो भाव्यसम्भुधो याज्ञवल्क्यपुरःसरः अनुकर्षन् स वै सेनां हस्त्यश्वरथसङ्कुलां प्रगृहीतायुधैर्विप्रैर् वृदशतसहस्रशः नात्यर्थं धार्मिकाये च ये च धर्मद्विष क्वचिद् उदीच्यान् मध्यदेशांश्च तथा विन्ध्यापरान्तिकान् तथैव दाक्षिणात्यांश्च त्रिविडान् सिंहलैः गान्धारान् पारदांश्चैव पप्लवान् पवनाञ्चपान् तुम्बरान् शबरांश्चैव पुळिन्दान् वरदान्वसान् लम्बाकानान्घ्रकान्पुण्ड्रान् किरादांश्चैव सप्रभुः बलवान प्रवृतचक्रो बलवा मंत्र बलि अदृश्यसूताष्यनव सधु संीम पूर्वजन्म विष्णु प्रमिर्नाम वीर्यवान् गोत्रेण वै चन्द्रमसः पूर्णे कलियुगे भवत इत्येतास्तस्य देवस्य दक्षसम्भूत यस्मदाः तन्दं कालं च स्ता योनी प्रपत्स्य पंचवेस्थितक पंच विंशत्स वै सन सर्वूता मनुषाव शर्व कृवा बीजावशा तो मही क्रूरेण कर्मण शांत वृषलान् प्रायशस्तानधार्मिकान् तद स वै तदा कल्किश्चरितार्थः सैनिकः कर्मणा निगधा सिद्धास्तेदु पुनः स्वयम् अकस्मात् कुपितान्योन्यं भविष्यन्ति मोहिताः क्षपयित्वा तु तान् सर्वान् भाविनार्थेन चोदितः गङ्गा यमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः ततो व्यतीते कल्पे समाप्ते सहसैनिके सैनिके नृपेष्वध विनिष्ठेषु तदा त्वप्रग्रहाः प्रजाः रक्षणे विनिवृत्ते दुहत्वा चान्योन्यमा भवे परस्परधृतस्वाश्च निरानन्दासुदुःखिताः पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः प्रनष्टश्रुतिधर्माश्च नष्टधर्माश्रमास्तथा ह्रस्वा अल्पायुषश्चैव भविष्यन्ति वनौकसः सरित् पर्वत सेविन्यपत्रमूलफलाशनाः क्षीरपत्रा जिनखरा सङ्करं अल्पायुषो नष्टवार्ता बह्वा बाधा सुदुःखिताः एवं काष्ठामनुप्राप्ता कलिसन्ध्यां शके तदा प्रजाः क्षयं प्रयास्यन्ति सार्धं कलियुगे न तु क्षीणे कलियुगे तस्मिन् प्रवृत्ते च कृते पुनः प्रपक्ष्यन्ते यथा न्यायं स्वभावादेवनान्यथा इत्येतत्कीर्तितं सर्वं देवासुरविचेष्ठितं यदु वंशप्रसङ्गेन महद्वो वैष्मवं यशः प्रवक्ष्यामि पूरो पुरोर्द्रुह्योरनोस्तथा इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे विष्णो माहात्म्यवर्णनं नामत्रिसप्ततितमोऽध्यायः ओ